आदिपर्व अनुक्रमणिकापर्व प्रथमोऽध्याय नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् ॐ नमो भगवते वासुदेवाय ॐ नमः पितामहाय ॐ नमः प्रजापतिभ्यः ओम् नमः कृष्णद्वैपायनाय ओम् नमः सर्वविघ्नविनायकेभ्यः लोमहर्षण पुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादश द्वादशवार्षिके सत्रे सुखासीनानभ्यगच्छद् ब्रह्मर्षीन् संशित व्रतान् विनयावनतो भूत्वा कदाचित् सूतनन्दनः तमिशारण्यवासीना चिरा श्रोतु कथस्तवृतपस्वि अभिवाद मुनींस्तांस्र्वानेताजलि अपृछत्स तपो वृद्धि सद्भिचैवाजित अथ तूपस्व निर्दिष्ट भेजे विनयालो लोमहर्षणि सुखासीनम् ततस्तम् तु विश्रान्तमुपलक्ष्य च अथापृच्छदृशिस्तत्र कथा। कुत आगम्यते सौते क्वचायं विहृतस्त्वया कालः कमलपत्राक्षशंसैतत्पृच्छतो मम एवम् पृष्टोऽब्रवीत् सम्यग् यथा वल्लौ वाक्यम् वचनसम्पन्नस्तेषाम् चरिताश्रयम् तस्मिन् सदसि विस्तीर्णे मुनीनाम् भावितात्मनाम् सौतिरुवाच जनमे जयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक् पारीक्षितस्य च कृष्णद्वैपायनप्रोक्ताः सुपुण्या कथिताश्चापि विधिवत्या वै शम्पायनेन वै श्रुत्वाऽहन्ता विचित्रार्धा महाभारतसंश्रिता बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च समन्तपञ्चकम् नाम पुण्यम् द्विजनिषेवितम् गतवानस्मितम् यत्राभवत्पुरा कुरूणाम् पाण्डवानाम् च महीक्षिताम् दिदृक्षुरागतस्तस्मात् समीपम् भवतामिह आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मता अस्मिन् यज्ञे महाभागाः सूर्यपावकवर्चस कृताभिषेकाशुचयः कृतजप्याहुताग्नयः भवन्त आसने स्वस्था ब्रवीमि किमहम् द्विजा पुराणसंहिताः पुण्याः कथा इति वृत्तम् नरेन्द्राणाम् ऋषीणाम् च महात्मनाम् ऋषय ऊचुः द्वैपायनेन तत्प्रोक्तम् पुराणम् परमर्षिणा सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च भारतस्येतिहासस्य पुण्याम् ग्रन्थार्थसंयुताम् संस्कारोपगताम् ब्राह्मीम् नानाशास्त्रोपबृंहिताम् जनमे जयस्य याम्राज्ञो वैशम्पायन उक्तवान् यथावत्सरुषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया वेदैश्चतुर्भिः संयुक्ताम् व्यासस्याद्भुतकर्मणः संहिताम् श्रोतुमिच्छामः पुण्याम् पापभयापहाम् सौतिरुवाच आद्यम् पुरुषमीशानम् पुरुहूतम् पुरुष्टुतम् ऋतमेकाक्षरम् ब्रह्म व्यक्ताव्यक्तम् सनातनम् असच्च सदसच्चैव यद्विश्वम् सदसत्परम् परावराणाम् स्रष्टारम् पुराणम् परमव्ययम् मंगल्यम मंगल विष्णु वरेण्यमन घं शुचि नमस्क्य हृषी केशं चराचर गुर हरी महर्षे पूजित सेह सर्वोकर्महात्म प्रवक्ष मत पुण्य व्यास सुतकर्मण आचख्यु कवय केचि इदम् तु त्रिषु लोकेषु महज्ज्ञानम् प्रतिष्ठितम् विस्तरैश्च समासैश्च धार्यते यद्विजातिभिः अलङ्कृतम् शुभैः समये समयेर्दिव्यमानुषैः छन्दोवृत्तैश्च विविधैरन्वितम् विदुषाम् प्रियम् पुण्ये हिमवतः पादे मध्ये गिरिगुहालये विशोध्यदेहं धर्मात्मा दर्भसंस्तरमाश्रितः शुचिः सुनियमो व्यासः शान्तात्मा तपसि स्थित भारतस्येतिहासस्य गतिम् प्रविश्य योगम् ज्ञानेन सोऽपश्यत् सर्वमन्ततः